तयास्मानि विश्वतस्तम यक्ष्मजा परिभुज नमस्ते अस्माभिजानाददाय विष्णवे उभाभ्यामुददे नमो बाहुभ्याम् तव धन्मने फलिते धन्मनो हेतुरस्मान् वृणद् विश्वतः अथो चषधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकायत्रिपुरान्धकायत्रिकालाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीवन्महादेवाय नमः नमो हिरण्यवाहवेशे नान्ये दिशाञ्चपतजे नमो नमो वृक्षे घ्यो हरिकेशे पशूनां पदरे नो नमः सस्मिन्दराध त्वषे मदयसेनां पदेन मो नमो बभृषाजविजान्नानां पदेन मो नमो हरिकेशाजोपवेतिने पुष्टानां पदेन मो नमो भवस्य हेत्ये जगदां पदेन मो नमो रुद्राजातदागिने क्षेत्राणां पददेन मो नमः सूताया हन्ता यवनानां पदेन मो नमो रोहिताय वृक्षा नाम नाम। नमो नमो मन्त्रिणे वा निजाय कक्षाणाम् पददे नमो नमो भुवं ददेवाय वस्कृता जौषधीनां पददे नमो नमः उच्चैर्घोषाया क्रन्द देपत्तीनाम् पददे नमो नमः कृत्स्नवेतायथापदे सत्त्वनाम् पददे नमः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 ो नथपदिभ्यश्च वो नमो नमः सेनाभ्य नमो नमः क्षत्रुभ्यः सङ्ग्रहेतुभ्यश्च वो नमो नमस्तक्षभ्यो न नमो नमः कुलारेभ्यः नमो नमः पुन्दिष्टेभ्यो निषारेभ्यश्च नमो नम इषकृद्भ्यो धन्मकृद्भ्यश्च नमो नमा विगजुभ्यस्वदिभ्यश्च नमो नमःभ्यश्च पदिभ्यश्च वो नमः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 सहस्राणि सहस्रशोदे रुद्रा अधिभूम्या एषाकम् सहस्रजोजने वधन्वाणि तम् असि अस्मिन् महत्यर्णवे परिक्षे भवा अधि नीलग्रे वा श्रुतिकण्ठाः शर्वा अधः क्षमासराः नीलग्रे वाश्रुतिगण्ठादिवकम् रुद्रा उपसृताः ये वृक्षेषु तस्मिन् दरा नीलग्रे वा विलोहिताः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 <dış> यक्ष्वा महेशो मनसाय रुद्रन्नेवमसुरन् नुमस्या अयम् मे हस्त भगवानयम् मे भगवत्तरः अयम् मे हे विश्वभेशतो यगम् शिवाभिमर्शनः सहस्रमय तम् पाशा मृत्यो मर्त्याय हन्त मे तानि यज्ञस्य पायजा सर्वा नव गजामहे मृत्यभे जलद्रामाविश्रान्तगाः एनान्येनाहाप्याहस्वा न वारद्राय विष्णवे मृत्युर्मे ष्टमय रसस्तमय कृतञ्ज मय मधुज मय सक्तिष्ठमय सवेदुष्टमय कृषिष्टमय कृष्णिष्टमय जयुक्तञ्चमौद्धञ्जमय रजष्टमय राजस्तमय पुष्टञ्जमय पुष्पष्टमय विभुज मय प्रभुज मे मभुज मय भोजस्तमय पूर्णञ्जमे पोर्णय क्षयिष्टमय गोजमाष्टमे नञ्च मय क्षुत्तमय मेहजस्तमय गोधूमा अष्टमे मधुरा अष्टमे प्यङ्गमस्तमे नमस्तमे श्यामागाष्टमे नीवाराष्टमे